तृतीयोध्यायः ज्ञानम् तृतीयोध्यायः ज्ञानम् ओम् मृद्यध्वानुसहस्रकान्तिवरुणक्षौ मां शिरोमालिका ओ मृद्यध्वानुसहस्रकान्तिवरुणक्षौ माम् शिरोमालिका लक्तालिप्तपयोधराम् च भवतीम् विद्यामभीतिम्बलम् शब्दालिप्तपयोधराम् जपवतीम् विद्यामभीतिम् वरम् हस्ताब्ैरधतीम् तृणेत्र विरतद्वक्त्रारविन्दश्रियम् हस्ताब्द्रेरधतीम् तृणेत्र विरतद्वक्प्रारविन्दश्रियम् देवीम् बद्धहिमाम् सुरत्नमुपुटाम् वन्देरविन्दस्थिताम् देवीम् बद्धहिमां सुरत्नमुकुटाम् वन्देरविन्दस्थिताम् ओम् ऋषिरुवाच ओम् ऋषिरुवाच निहन्यमानम् तत्सैन्यमवलोक्यमहासुरः निहन्यमानम् तत्सैन्यमवलोक्यमहासुरः सेनानीशिक्षुरः कोपाध्ययो योध्वुमथाम्बिताम् सेनानीशिक्षुरः कोपाद्ययोद्धुमथाम्बिकाम् तदेवीं शरवर्षेण ववर्षतमरे सुरः तदेवीं शरवर्षेण ववर्षतमरे सुरः यथा मेरुगिरे शृङ्गम् तोयवर्षेण तोयतः यथा मेरुगिरे शृङ्गम् तोयवर्षेण तोयतः तस्य स्थित्वा तपो देवी, देवी, देवी लीलयैव जनोत्तराय तस्य स्थित्वा तपो देवी लीलयैव सरोत्परान् जघानतु रगाण् बाणेर्यन्तरम् तैव वाजिनाम् जघानतु रगाण् बाणेर्यन्तारम् तैव वादिनाम् चाति समुत्थितम् चित्के दट धनुस्तस्य चाति समुत्स्थितम् दिव्याधतैव गात्रेषु विद्यासदैव गात्रेषु छिन्नधन्वा न मातुरैः सखिन्नधन्वा दिरथो हताश्वो हतसारथिः सच्छिन्नधन्वा दिरथो हताश्वो सिंहमाहद्यखड्गेन तीक्ष्णधारेण मूर्धनी आजघानभुजे दव्ये देवीमप्यतिवेगवान् आजघानभुजे दव्ये देवीमप्यतिवेगवान् तस्या खड्गो भुजम् प्राप्य पफालनपनन्दन तस्या खड्गो भुजम् प्राप्य पफालनवनन्दन ततो जग्राहसूलम् स गोपादरुणलोचनः ततो जग्राहशूलम् स गोपादरुणलोचनः चिक्वे पतत तस्तत्सु भद्रकाल्याम् महासुरः चिक्वे पचत तस्तत्सु भद्रकाल्याम् महासुरः जाज्वल्यमानम् तेजोभि रविबिम्बमिवाम्बलात् प्राज्वल्यमानम् तेजोभि रविबिम्बमिवाम्बलात् धृत्वा तदा पतन् दृष्ट्वा तदापतम् देवी थूलममुता तत्थूलम् शतधातेन जीतम् स च महासुरः तत्थूलम् शतधातेन जीतम् स च महासुरः महिरस्य चमूपतौ हते तस्यन् महावीर्ये महिरस्य चमूपतौ आजगामगजारोढश्चामरत्रिदशार्जनः आजगामगजारोढतामलत्रिदशार्जनः सोऽपि शक्यम् मुमोचाह देव्यास्तामम् विगादृतम् सोऽपि शक्यम् मुमोचाह देव्यास्तामम् विकादृतम् हुङ्काराभिहताम् भूमौ पातयामास निप्रभाम् हुङ्काराभिहताम् भूमौ पातयामास निःप्रभाम् भग्नाम् शक्तिम् निपचिताम् दृष्ट्वा क्रोधसमञ्जितः भग्नाम् शक्तिम् निपचिताम् दृष्ट्वा क्रोधसमण्डितः शिक्षे वचामरः शोलम् बाणे तदपि सात् किनत शिक्षे वचामरः बाणे तदपि सास्किनत ततः सिंहसमुत्पस्य गजकुम्भान्तरे स्थिरः ततसिंहत्कमुत्पस्य गजकुम्भान्तरे स्थिरः बाहुयुद्धेन युधे तेनोच्चैत्रिदशादिना बाहुयुद्धेन युधे तेनोच्चैत्रिदशादिना युध्यमानौ ततस्तौ तु तत्मान्नागान्महीम् गतौ युध्यमानौ ततस्तौ तु तत्मान्नागान्महीम् गतौ विजुधातेति संरद्धो प्रहारैरतिदारुणैः विदुधातेति संरद्धो प्रहारैरतिदारुणैः ततो वेगाख्यमुत्पस्य निपत्यथ मृगारिना ततो वेगाख्यमुत्पस्य निपत्यथ मृगारिना करप्रहारेण चिरः कामनस्य पृथक् कृतम् करप्रहारेण चिरः कामनस्य पृथक् कृतम् पुरग्रश्चरणे देव्या शिलावृक्षादिभिर्हतः पुरक्षश्चरणे देव्या शिलावृक्षादिभिर्हतः दन्तमुष्टितलैश्चैव कलालस्य निपातितः दन्तमुष्टितलैत्यैव कलादश्च निपातितः देवी क्रुद्धा गतापातैः शूर्णयामासचोद्भतम् देवी क्रुद्धा गतापातैः शूर्णयामासचोद्भतम् बार्कलम् भिन्दि बालेन बाणैस्ताम्रम् तथान्धकम् बार्कलम् भिन्दिबालेन बाणैस्ताम्रम् तथान्धकम् उग्रात्यमुग्रवीर्यम् च तथैव च महाहनुम् उग्रास्यमुग्रवीर्यम् च तथैव च महाहनुम् तृणेत्रात त्रिषुहुलेन जघाणपरमेश्वरी तृणेत्रात त्रिषुहुलेन जघाणपरमेश्वरी विलालस्यातिनाकायात् पातयामातवैजिरः विलालस्यातिनाकायात् पातयामातवैजिरः दुर्धरम् दुर्मुखम् सोभौ सरैर्निन्येयमक्षयम् दुर्धरम् दुर्मुखम् चोभौ सदैव निन्येयमक्षयम् एवम् सं क्षीयमाने तु स्वसैन्ये महिरः एवम्पेण प्रासयामासतान् गणान् ताम् स्त्रिः सुन्दप्रहारेण पुरक्षेपैः तथापदान् तां स्थितुप्रहारेण कुरक्षेपैः सखापरान् लाङ्गू लतादितांश्चान्यान् शृङ्गाभ्याम् तविदारिताङ्गूलताधिकांश्चान्यान् शृङ्गाभ्याम् तारितांश्चिरपरान्नादेन भ्रमणेन च वेगेन कांश्चिरपरान्नादेन भ्रमणेन च निश्वासपवनेनान्यान्हातयामास भूतले निश्वासपवनेनान्यान् भातयामास भूतले निवात्यप्रमथानीकमभ्यधावतसोदुरः निवात्यप्रमथानीकमभ्यधावतसोदुरः सिंहम् हन्तुम् महादेव्या गोपुम् चक्रे ततोऽम्बिका सिंहम् हन्तुम् महादेव्या गोपम् चक्रे कोऽपि कोपान्महावेर्यः कुरक्षुण्णमहीतलः सोऽपि कोपान् महावेर्यः पुरक्षुण्णमहीतलः शृङ्गाभ्याम् पर्वतानुश्चाम् स्पक्षे पचननाद च शृङ्गाभ्याम् पर्वतानुश्चाम् स्पिक्षे पचननाद च वेगभ्रमनदिक्षुण्णामहीतस्य व्यसीर्यत वेगभ्रमनदिक्पुण्णामहीतस्य व्यसीर्यत लाङ्गूलेनाहतश्चाभ्यः लावयामास सर्वतः लाङ्गूलेनाहतश्चाभ्यः लावयामास सर्वतः भुतृङ्गविभिन्नाश्च खण्डम् खण्डम् ययोध्वनाः भुततृङ्गविभिन्नाश्च खण्डम् खण्डम् ययोध्वनाः स्वासानिलास्ताश्च तशो निपेतुर्नभगोचलाः स्वासानिलास्ताशो निपेतुर्नभजोचलाः इति क्रोधसमाध्नातमापतन्तम् महासुरम् इति क्रोधसमाध्नातमापतन्तम् महासुरम् दृष्ट्वा सातण्डिका गोपम् तत्त्वधाय तदाकरोत् दृष्ट्वा सातण्डिका गोपम् तत्त्वधाय तदाकरोत् साक्षित्वा तस्य वैपाशम् साक्षित्वा तस्य वैपाकम् कम्बबन्धमहापुरम् सत्याजमाहिजं रूपम् सोऽपि बद्धो महामृधे सत्याजमाहिजं रूपम् सोऽपि बद्धो महामृधे तदस्तिभो भवत्सद्यो जावत्तस्याम्बिकाशिरः तदस्तिम्भो भवत्सद्यो जावत्तस्याम्बिकाशिरः खिलच्चितावत्पुरुषः खड्गपानिरच्यत क्षिणच्छितावत्पुरुषखड्गपानिरदृश्यत तत एवासु पुरुषम् देवी चित्फेदनायकैः तत एवासु पुरुषम् देवी चित्फेदनायकैः तम् खड्डकर्मणा अगार्धम् ततस्तो भोन्महागजः तम् खड्डतर्मणा अगार्थम् ततस्तो भोन्महागजः करेण च महासिंहम् तम् च कर्ष जगर्ज च करेण च महासिंहन्तम् च कर्षजगर्ज च कर्षतस्तु करम् देवीखट्गेन निरकृन्तत कर्षतस्तु करम् ततो महासुरो भूयो माहितम् वपुरास्फितः ततो महासुरो भूयो माहितम् वपुरास्फितः तथैवक्षोभयामासत्त्वैलोक्यम् सचराचरम् तथैवक्षोभयामासत् वैलोक्यम् सचराचरम् ततः क्रुद्धा जगन्माता चण्डिकापाणमुत्तमम् ततः क्रुद्धा जगन्माता चण्डिकापाणमुत्तमम् पपौ पुनः पुनश्चैव जहासारुणलोचना पपौ पुनः पुनश्चैव दहासारुणलोचना ननद्दशादुरस्थोऽपि बलवीर्यमदोद्धतः ननदचादुरस्थोऽपि बलवीर्यमदोद्धतः विषाणाभ्याम् चदिक्षेपचन्द्रिकाम् प्रतिभूधरान विषाणाभ्याम् चिक्षेपचन्द्रिकाम् प्रतिभूधरान तासताम् प्रहितांस्तेन चूर्णयन्तिसताम् प्रहितांस्तेन चूर्णयन्ति खरोस्करैः उवादतम् नदो धूतमुखरागाकुलाक्षरम् उवादतम् नदो धूतमुखरागाकुलाक्षरम् देव्युवाच देव्युवाच गर्जगर्जक्षणम् मूढमधुयावत् पिबाम्यहम् गर्जगर्जक्षणम् मूढमधुयावत् पिबाम्यहम् मया प्रयहते सैव गर्जिष्यम् चासु मया प्रयहते सैव गर्जिष्यम् चासु देवताः विहिर्वात एवमुक्त्वा समुत्पत्त्यतारूढातम् महासुरम् एवमुक्त्वा समुत्पत्त्यूढातम् महासुरम् पादेनाक्रम्य कण्ठेकटूलेनैल मताडयत पादेनाक्रम्य कण्ठे कूलेनैलमताडयत सतस्वोऽपि पदाक्रान्तस्तया निजमुखात्कतः सतस्वपि पदाक्रान्तस्तया निजमुखात्कतः अर्थनिष्क्रान्त एवापी देव्यावीर्येणकम् मृतः अर्धनिष्क्रान्त एवापी देव्या वीर्येणकम् मृतः अर्धनिष्क्रान्त युध्यमानो महासुरः अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः तया महासिना देव्या तिरस्सित्वा निपातितः तया महातिना देव्या तिरक्सित्वानिपातितः ततोहातुसम् सर्वम् दैत्यसैन्यम् ननाशत ततोलोहातुसम् सर्वम् दैत्यसैन्यम् ननाशत प्रहरम् कर्म च परम् जघ्वस्तकला दे देवतागणाः प्रहरम् च परम् जघ्वस्तकला देवतागणाः षष्टवत्ताम् सुरादेवीम् सह दिव्यैर्महर्षिभिः षष्टवत्ताम् सुरादेवीम् सह दिव्यैर्महर्षिभिः गगर्गन्धर्वपतयो नरुतश्चात्सरो गणाः गगर्गन्धर्वपतयो नरुतश्चात्सरो गणाः ओ